हरिओं श्रीजगदंबिका नम अथ श्रीमद्देवी भगवते माँ पुराणे तृतीय स्कंधे चतुर्थोध्याय ब्रह्मोवाच्वा भगवान्ष्णु पुनराह जनादन व्यव गेम पासे से प्रणमन पुनः पुनः से यंवरा महाम दास वरा महा निर्भया चरणांतिके वा वारी शन्ति चरणा पठिष्यामश्च तत्र स्थातिं देव्या समाहितः प्रमोवाच इत्युक्ते हरिन्दावाक्ये सुप्रष्टौ सुसंस्थितौ दातो प्रमोदितो कामं निकटे गमनायच ॐ विद्युत्वा हरिं सर्वेमाना स्वरिताशीर्य निर्गता द्वारि शङ्कमानामनश्चान् वीक्षतान् सर्वान् देवी भगवती तदा स्मितम् कृत्वा चकाराशु तान् त्रीन् त्रिन् रूपधारिणः वयं युवतयो दाता सुरूपाचारुभूषणः विस्मयम् परमम् प्राप्त सन्निधिम् पुनः स दृष्ट्वा न स्थितान्तत्र श्रीरूपाञ्चरणान्तिके व्यलोकयत चार्वङ्गीतम् प्रेम सम्पूर्ण यादृशा प्रणम्यताम् महादेवीम् पुरतः संस्थिता वयम् परस्परम् लोकयन्तम् श्रीरूपाचारुभूषणः पादपीठम् प्रेक्षमाणानानामणि विभूषितम् स्वर्य कोटि काशं स्थिता तत्र वयं त्रय काश्चित् रक्ताम्बरा तत्र सहचर्य सस्रज काश्चिन्नीलाम्बरा नार्य तथा पीतांबरा शुभा देव्य सर्वशुभाकारा विचित्राम्बरभूषणा विरेजु पार्श्वस्तस्या किल जगुश्च नन्दतुश्चान्या पर्युपासन्तश्रिय वीणामारुतवाद्यानि वादयन्त्यो मुदान्विताः तृणुनार्दवक्ष्यामि यदृष्टम् तत्र च अद्भुतम् नखदर्पण मध्ये वै देव्याचरणपङ्कजे ब्रह्माण्डम् अखिलम् सर्वम् तत्र सावरजङ्गमम् अहम् विष्णु च रुद्र च वायुवग्नेयमौरवी वरुणाशीतगुरुस्पष्टाय कुबेधपाकशासनः पर्वता सागरा नद्यो गन्धर्वाप्सरसस्तथा विश्वावसु चित्रकेतु श्वेतचित्राङ्गस्तथा नारद सुम्बुरोश्चैव हा हूः तथैव च अश्विनो वसवसाध्या सिद्ध्या च पितरस्तथा नागाशेषाद्रिय सर्वे किन्नरो राक्षसाः वैकुण्ठ ब्रह्मलोक च कैलासपर्वतोत्तमः खिलम दृष्टम नख मध्यस्थित पंकानन शेषचाई जगन्नाथ तथा मधुक ब्रह्म उवाच एवं दृष्टम मै त्रदपद्मा पाद विस्तोहम तथो वीक्ष कित श विष्णुश्च विस्मयाविश्च शङ्करश्च सुधात तं तदा मेनिरे देवीं दे वयं विश्वस्य मातरम् ततो वर्षशतम् पूर्णम् व्यतिक्रान्तम् प्रपशत सुधामये शिवे विहारं विहारम् विविधम् तदा सख्यैव तदा तत्र मेनिरे स्मानवर्तितान् देवे नानाभरणमण्डिता वयमप्यतिरम्यत्वा बहुवीम विमोहिता वी प्रवृष्टमनस सर्वे पश्यन् भावान् मनोरमान् एकदा ताम् हा देवीम् देवीम् त्रिभुवनेश्वरीम् तुष्टाव भगवान् विष्णु युवती भावसंस्थित श्रीभगवानुवाच नमो देवे प्रकृते च विधात्रे सततं नमः कल्याणे कामदाई चुद्धि सिद्ध्य नमो नम सच्चिदाननंदे संसार विधाई से भुवन नमो नम रूपाय कूटस्था नमो नम अर्धमाताय सुलेखा नमो नम ज्ञात मैयाखिलदिवेष्ट तत्तो च संभवलयवपि मातरद्य शक्ति च ते च कर्णे विततप्रभाव ज्ञाताधुना सकललोकमैति नूनं विस्तार्य सर्वमखिलं सदसाधिकारम् सन्दर्शयश्च विकलं पुरुषायकारे तत्त्वै च षोडशभिरेव च सप्तभी च भासीन्द्रजालमिव नः किलरञ्जनाय न त्वामृते किमपि वस्तुगतम् विभयति वाप्यैव सर्वमखिलम् तमवस्थितासि शक्तिम् विना व्यवहृतो पुरुषोऽप्यशक्तो त्वम् भण्यते जननि बुद्धिमता जनेन प्रीणासि विश्वमखिलम् सततम् प्रभावे त्वयि तेजसा च सकलम् अस्यैव देवि तरसा किल कल्पकाले को वेद देवि चरितम् तव वैभवस्य सापा वयम् जननि चै मधुकै च भाभ्याम् लोकार्चते सुवित खलु दर्शिता वै सुखस्य भवने परमां कोटिम् यद्दर्शनम् तव भवान् महाप्रभावम् नासम्भवो न च विधिञ्चि विवेदमात कोऽन्यो हि वेति चरितं तव दुर्विभाव्यम् का निह सन्ति महाप्रभावे यस्मिन् भवानि रचिते रचना कपलकलापे अस्माभिरत्र भुवने हरिरण्य एव दृष्टशिव कमलजय पतितप्रभाव अन्येषु देवि भुवनेषु न सन्ति किं किं विद्मदे विततं तव सुप्रभावम् याचिम्बतेङ्घ्रिकमलम् प्रणिपत्य गामम् चित्ते सदा रूपमिदं तवैतत् नामामि वक्त्रकुवरे सततं तवैव सन्दर्शनं तव पदाम्बुजयो सदैव भुत्योऽयमस्ति सततं मयि भावनीयम् सां स्वामिनीति मनसा न तु एषा भयोरविरता किल देवि भूयात् व्याप्ति सदैव जननी सुतयोरिवार्ये संवेति सर्वमखिलम् भवन प्रपञ्चम् सर्वज्ञता परिसमाप्तिनितान्तभूमि किम् पामरेण जगदम्ब निवेदनीयम् यद्युक्तमाचर भवानि तवङ्गितम् स्यात् ब्रह्मा सुजत्यवति विष्णुरुमापति च संहार कारकयम तो जने प्रसिद् तदपि देवी तवे कर्म क्षमा वयमजे तव शक्ति धात्री धराधर जगद्दिभर्तिधारशक्तिरख तव वै बिभर्ती सूर्योभा प्रभ्यामेंदिल विभाति ब्रह्माह मेकरवर किल ते प्रभावात् सर्वे वयम् जनयिता न यदा तु नित्या केनेतुराश्रतमख प्रमुखाश्च नित्या नित्या त्वमेव जननी प्रभृति पुराणा तं चेद्भवा निदयते पुरुषम् पुराणम् दानेहमद्य तव सन्निधिगस्तदैव नो चेदहं विभुरना दीहनी विश्वात्मधीरिति समयती तदैव विद्यात्वमेव ननु बुद्धिमतां नराणाम् शक्तित्वमेव किल शक्तिमतां तदैव संकीर्तिकान्तिकमलामलसूष्टिरूपा मुक्तिपदाविरतिरेव मनुष्यलोके गायत्र सीप्रसमवेदकला त्वमेव स्वाहा भगवती सगुणार्धमात्रा आम्नाय एव विहितो निगमो भवत्या सञ्जीवनाय सुतम् स्वपूर्वजानाम् मोक्षार्थमेव रचय सखिलम् प्रपञ्चम् तेषाम् गता खलु यत् ननु जीवभावम् अंशानादिनिधनस्य किल नघस्य पूर्णार्णवश्च वितथा हि यथा जीवो यदा तु परिवर्तितवैव कृत्यम् तं संहरश्च अखिलमेतदिति प्रसिद्धम् नाट्यम् नटेन वितथेन्तरङ्गे कार्ये कृते विरमसे प्रथित त्वमेव मम मोहमयाद्भवाब्धे स्वामम्बिके सततमे महाविदे च रागादिभिविरचिते वितथे किलान्ते मामेव पाहि बहु दुःखकरे करेच काले नमो देवि महाविद्ये नमामि चरणो तवे सदा ज्ञानप्रकाशम् मे देहि सर्वासदे शिवे इति श्रीमद्देवी भगवते मा पुराणे अष्टादशसहस्र्याम् संहितायाम् तृतीयस्कन्धे विष्णुना कृतम् देवीस्तोत्रम् नाम चतुर्थोऽध्याय श्रीजगदम्बिकायै श्रीजगदम्बिकायार्पणमस्तु